हरिवो हरिवो अत षष्ठोऽध्यायः सूत उवाच ये तन्निसंयमुनिना विहितं परीक्षेत् व्यासात्मजेन निखिलात्मदृशासमेन तत्पादमूलम् उपश्रुत्य न तेन मूर्ध्ना बद्धाञ्चलिस्तं यदमागस विष्णुरातः राजोवाच सिद्धस्म्यं गृहीस्मेता करुणात्मन श्रावित य मे साक्षात्धनो हरि नात्यद्भुतमहं मन्ये महतामच्युतात्मन अज्ञेषु तापतप्तेषु भूतेषु यदनुग्रहः पुराणसंहितामेदां श्रौष्म्य भवतो वयं यस्मान् खलु तमश्लोको भगवान् अनुवर्ण्यते भगवन्तक्षकादिभ्यो मृत्युभ्यो न बिभेम्यहं प्रविष्टो ब्रह्मनिर्वाणम् अभयं दर्शितं त्वया अनुजानीहि मां ब्रह्मन् वाचं यच्छां यथोषेन् मुक्तकामाशयं चेत प्रवेश्य विसृजां यसून् अज्ञानं च निरस्तं मे ज्ञानविज्ञाननिष्ठया भवता दर्शितं क्षेमं परं भगवतः पदम् इत्युक्तस्तमनुज्ञाप्य भगवान् भातरायणिः जगामभिशुभि साकं नरदेवेन पूजितः परिशीतभिराजर्षी आत्मनि आत्मानमात्मनं समाधाय परं धत्या वस्बन्धा शुर्यथा तरुः प्राकुले बर्हि बर्हिष्यासीनो ब्रह्मभूतो महाय योगीनिस्सङ्गिन्न संशयः तक्षकप्रहितो विप्राकृ द्विजसूनुना हन्दुकामो नृपं गच्छन् द्तर्शपति कश्यपं तं तर्पयित्वा द्रविणैर्निवर्त्य विषहारिणम् द्विजरूप ब्रह्मभूतस्य राजर्षिर्देहो हि गरलाग्निनां बभूव पस्मसात् सत्यपश्यतां सर्वदेहिनां हाहाकारो महानासीद् भुवि के दिक्षु सर्वतः विस्मिता ह्य भवन् सर्वे देवासुरनृदयः देवधुन्दुभयोने दुर्गन्धर्वाप्सरसो जगुः ववृक्षो पुष्पवर्षाणि विभुधा पितरम् श्रुत्वा तक्षक भक्षितं यथा जुहाब संहृद्धो नागान् सत्रे सखद्विजहे सर्पस्त्रे समिधाग्नौ दह्यमानान् मखोरघान् दृष्ट्वेन्द्रम्भयसंविघ्नस्तक्षकचरणं यय अपश्यंस्तक्षकं तत्र राजा पारीषितो द्विजान् उवाच तक्षकः कस्मान्न दह्येतो रघातमः तं गोपयाति राजेन्द्रचक्रचरणमागतं तेन संस्तम्भितः सर्पस्तस्मान्नाग्नौ पतत्यसौ परीक्षित इति श्रुत्वा प्राहर्द्विजमुदारधीः विप्रानाग्नौ किमितिपात्यते। पात्यते तच्छ्रुत्वा जहुवूर्विप्राक् सखेन्द्रं तक्षकासु पदस्वेहे सहेन्द्रेण मरुत्वता इति ब्रह्मोदिताक्षेपैः स्थानाधित्रप्रचालितः बभूव सम्भ्रान्तमतिः तं पतन्तं विमानेन सकतक्षकमम्बरात् विलोक्याङ्गिरसः प्रागराजानं तं बृहस्पतिः नैष त्वया मनुष्येन्द्रभधमर्हति सर्पराट् अनेन पीतममृतमतव अजरामरः जीवितं मरणं जन्तोर्गतिस्वेनैव कर्मणा राजंस्ततोन्यो नान्यस्य प्रधाता सुखदुःखयोः सर्पशौराग्निविद्युत्यक्षोत्रव्य ध्याधिभिर्नपहान् पञ्चत्वं रुचते जन्तुर्भुङ्क्त आरब्धकर्म तद् तस्मात् स्तरमिदं राजन् संस्तियेत आविचारिकं सर्पा अनागसो धक्ता जने दिष्टं हि भुज्यते सूत इत्युक्तः सतते ध्यागमहर्षेर्मानयन् वचः सर्पशत्रात् उपरतः पूजयामास वाग्पतिं सैषा विष्णोर्मकामायां बाद्ययालणक्षणाय यां मुह्यन्त्यस्यैव आत्मभूता भूतेषु गुणौ वृत्तिभिः न विराजिता न यत् विवादो विविधाश्रयो मनश्च सङ्कल्पविकल्पवृत्तिये न यत्र सृज्यं सृजतो भयोः परं श्रेयस्य जीवस्त्रिभिरन्वितस्त्वहं तदेतत् उत्साधितभात्यभातकं निषिध्य चोर्मिन् विरेमेतस्वयं मुनिः परं पदं वैष्णवम् आमनन्ति तत् यन्नेति ते दीत्य तत् उत्तिसृश्रवहान् विसृज्य दौरात्म्यम् अनन्यसौहृद हृदो बगुह्यावसितं समाहितैः तयेतत् अधिगच्छन्ति विष्णोर्यत् पदम् अहं ममेति दौर्जन्यं न येक्षां देह गेहजम् अधिवातां स्थितिक्षेत् नावमन्येत कञ्चन न देहमाश्रित्य वैरं कुर्वीत चेत् नमो भगवते तस्मै कृष्णाय आकुण्ठमे दशे यत्पधां बूर्वकध्यानात् संहिताम् अद्य गामि मां सौनकौपाच पैलादिभिर्व्यासशिक्षैर्वेदाचार्यैर्महात्मभिः वेदाश्च कथिता व्यस्ता एतत्सौव्याभिदेहिनः सूत उवाच समाहितात्मनो ब्रह्मन् यदुपासनया ब्रह्मन् योगिनो मलमात्मनः द्रव्यक्रियाकारकाक्यं धूत्वा यान्ति अपुनर्भवं ततो भोतृव्रत ओङ्कारो यो व्यक्तप्रभव स्वराठ यत्तल्लिङ्गं भगवतो ब्रह्मणः परमात्मनः शृणोति ययमं स्फोटं सोप्तश्रोत्रे च शून्यदृक् येन वाग् व्यज्यते यस्य व्यक्तिराकाश आत्मनः स्वधाम्नो ब्रह्मणः साक्षात् परमात्मनः स सर्वमन्त्रोपनिषद्वेदबीजं सनातनं तस्य ह्यासंस्त्रयो वर्णा अकाराध्याभृणाद्वघान् धार्यन्ते यैस्त्रयो भावा गुणनामार्तवृत्तयः ततोऽक्षरसमां नायमसृजद् भगवान् जघा अन्तस्तोष्मस्वरस्पर्श ्रस्वदीर्घातिलक्षणं तेनौसौ चतुरो वेतांश्चतुर्भिर्वधनैर्विभो तव्याकृतिकान् शृङ्घारंश्चातुर्होत्र विवक्षयन् पुत्रान् अत्यापयत्तां सुब्रह्मर्षीन् ब्रह्मकोविधान् ते तु धर्मोपदेष्ठार चतुर्युगेश्वतव्यस्ता द्वापराधौ महर्षिभिः क्षीणायुषक्षीणः सत्त्वान् दुर्मेतान् वीक्षकालतः वेतान् ब्रह्ममर्ष्यो व्यस्यन् कृतिस्ताच्युतचोदिताः अस्मिन्नभ्यन्तरे ब्रह्मन् भगवान् लोकभावनः ब्रह्मे साध्ये लोकपालै याचितो धर्मगुप्तये पराशरात् सत्यवत्यां हंसां सकलया विपुः अवतीर्णो का भागवेतं चक्रे चतुर्विधं रुग्धर्वयजुसाम्नान् राशीन् उद्धृत्य वर्गशहान् सतश्रसंकिताश्चक्रे मन्त्रैर्मणिगणायि तासां स चतुरः शिष्यान् अपाहूय महामतिः एकैकां संहितां ब्रह्मन् एकैकस्मै दधौ विभु पैलाय संहितामाद्यां बह्वृजाख्यामुवाचः वैशम्पायनसंज्ञाय निगधाज्ञं यजुर्गणं साम्नाम् जैमिने ये प्राघातता छन्दोकसंहिताम् अथर्वाङ्गीरसीं नाम स्वशिक्षाय सुमन्तवें भैलक् चतुर्धाव्यस्य बोध्याय याज्ञवल्क्याय अध्यापयत्संहितां स्वां पाण्डुकेयं ऋषिं कविं तस्य शिक्षो देवमित्रसौभर्याधिप्यवूशिवान् साकल्यस्तत्सुतः पञ्चधाव्यस्य संहितां वात्स्यमुद्गलसालीय गोगल्य शिशि प्रेष्वधातुकर्ण्यश्चिक्षस्स निकृतां बालाकवैजवैतालविरजेभ्यो धतो मुनिः बाष्कलिप्रतिशागाभ्यो बालकिल्याख्यसंहितां चक्रे बालाय निर्भज्य कासारश्चैव तां धतुः ब्रवृच्छा सं हिता हेता सर्वपापैः प्रमुच्यते वै सम्पायन शिष्या वै चरघात्वर्यवो भवन् आहाहो भगवन् कियत् चरितेन अल्पसाराणां चरिष्येऽहं सुदुश्चरं युत्युक्तो कुपितो याख्यलं त्वया विप्रवमन्त्राशिष्येन मदधीतं त्यजास्वितिं देवरातसुतश्चोभिच्छर्ति द्वायशूचाङ्गणं ततो गतो तमुनयो धतृस्तान्यजुर्गणान् यजुंशितित्तिरा भूत्वा तल्लोलुपतयाद्धतुः तैत्तिरियायिति यजोः शाखा आशन्सुपेशलाख याज्ञवल्क्यस्ततो भ्रं गुरो अरविद्यमानानी स्वपतस्तेर्गमीश्वरं याज्ञवल्ल्य ॐ नमो भगवते आदियाय अखिलजगतामात्मस्वरूपेण कालस्वरूपेण चतुर्विधभोतनिकायानां ब्रह्मातिस्तम्भपर्यन्ताम् नामन्तर्हृतयेषु बहिरपि चाकाश यिवो बाधिना व्यवतीयमानो भवानेकये वक्षणलवनिमेषावयवोपचितसंवत्सरगणे नापामादानविसर्गाप्यामि मां लोगयात्रामनुवहति यदुहवाव विभुदर्शप सवितरतस्तपत्न्यनुवसनम् अहरः अहर। राम्नाय वितिनोपतिष्ठामानानाम् अखिलधुरितव्रजिनबीजाबर्जन भगवतः समभीतिमहितपनमण्डलं यैह भावस्थिरचरणिकराणां निजनिकेतनानां मान इन्द्रियासु गणनात्मनः स्वयमात्मान्तर्यामि प्रचोदयति य गिलितं मृतकमिव विचेतमवलोक्य अनुकम्पया परमकारुणिक ईशयैव उत्थाप्य अहरहरनुसवनं श्रेयसी प्रवर्तयति अवनिपरिति वा परित आशापालैस्तत्र तत्र, तत्र कमलकोशाञ्जलिभिरुभृतार्हणः अतः भगवंस्तव चरणनळिनयुगलं त्रिभुवन गुरुभिर्वन्ति तमहमयाधयाम यजुकाम या उपसरामीतिं सूतमुवाच एवं स्तुतः स भगवान् भाजिरूपधरोहरिः यजुं अयतायामानी अयतायामानीमुनयेतात् प्रसादितः यजुर्भिरघरोच्चाका दश पञ्चशतैर्विभुः जैमिने सामगस्यासीत् सुमन्तुस्तनयो मुनिः सोन्वां स्तुतत्स्तुतस्ताभ्यां एकैकां प्राक्संहितान् सुकर्मा सहस्रसंहिताभेतं चक्रे साम्नां ततो द्विजः हिरण्यनाभकौसल्यः पौष्यञ्झिष्य सुकर्मणः शिष्यौ जगृहतुः शान्त्य आवन्त्यो ब्रह्मवित्तमः प्रचक्षते लौकाक्षिर्माङ्गलिकुल्यकुसीधक्कुशिरेव च पौष्यङ्गे शिष्य शिष्या जगृहो संहितास्ते सतं सतं कृतो हिरण्यनाभस्य चतुर्विंशतिसंहिताः शिष्यवूचे स्वशिष्येभ्यः शेषा आवन्त्य आत्मवान् इति श्रीमद्भागवते महापुराणे द्वादशस्कन्ते वेतसाखाप्रणयनं नाम षष्ठोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द सद्गुरुनाथ महराजकी जय